श्रीमद्भागवत् महापुराणं चतुर्थी स्कन्ध अथ त्रिंशोऽध्यायः रूपं भगवता त्वेतदशेषक्लेशसञ्चयम् आविष्कृतं न क्लिष्टानां किमन्यदनुकम्पितम् एतावत्त्वं हे विभुर्भिं दीनेषु वत्सलैः यदनुस्मर्यते काले स्वबुद्ध्या भद्ररन्थन तेनोपशान्तिर्भूतानां चुल्लकानाम् अपीहताम् अन्तर्हितोऽन्तर्हृये कस्मान्नो वेदनाशिषः असावेव वरोऽस्माकम् इप्सितो जगतः पते प्रसन्नो भगवान एसाम। अपवर्ग गुरुर्गतिः वरं वृळीं महेथापि नाथ त्वत्परतः पराद् नशन्त त्वद्भूतीनां शोणन्त इति गीयते पारिजातेञ्जसा लब्धे सारगोण्यन्यसेवते त्वदङ्घ्रे मूलसामासाद्य साक्षात् किं किं वृमहे यावत्ते माया स्पृष्टा कर्मभिः तावद्भवत्प्रसङ्गानां सङ्गस्यान्नो भवे भवे तुल्यामन्दवेनापि न स्वर्गं न पुनर्भवं भगवत्सङ्गीसङ्गस्य मर्त्यानां च्युताशिष यत्र यन्ते कथा प्रेष्ठा तृष्णाया प्रथमो यतः यत्र भूते सूनुद्वेगं यत्र कस्य यत्र नारायण साक्षाद् भगवान्यासिनां गतिः संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः तेषां विचरतां तद्भ्याम् तीर्थानां पावनीच्छया भीतस्य किं न रोचेत तावकानाम् समागमः दयन्तु साक्षाद्भगवन्भवस्य प्रियस्य शख्यो क्षणसङ्गमेण श्रुतेश्चिकेशस्य भवन भवस्य मृत्योभिषक्तकुमं त्वाद्य गतिं गता स्म जन्न स्वधिततं गुरव प्रसादिता विप्राश वृद्धाश सदानुवृत्त्याम् आर्यानतासु हेतो भ्रातरश्च सर्वाणि भूतान्यनसूययैव जन्न सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु सर्वं तदेतत् भुम्नो विलीमहे ते परितोषणाय ननु संयंवरभगवान् भवस्य येने तपोज्ञानविशुद्धतत्त्वा न दृष्टपारायपि यन्महिं न सुवन्त्यथो त्वात्मसमं गृह्णीमः नमः समाय सिद्धाय पुरुषाय पराय च दासुदेवाय सत्त्वाय तभ्यं भगवते नमः नैत्रि उवाच इति प्रचेतोऽभीभीष्टो हरिः प्रीतस्तथेत्याहसरण्यवश्चलः अनिक्षतां जानमतिब्दचक्षुषां यजौ सधामानपवं वर्गवीर्यः तथ निर्याय सललात् प्रचेत उदन्वतः दीक्षा कुप्य द्रुमै सन्नां गां गां महिं निर्विरुधं कर्तुं संवर्तक इवात्यये भस्मसाद्गीयमाणास्तान्द द्रुमान् द्रुमान् व्यक्ष पितामहः आगतशमयामास तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा उज्ज्वहुस्ते भुवा। उपदेष्टा स्वयम्भुवा आदेशान् च ब्रह्मण आदेशान्मारिषामुपये मिरे यस्याम् महत्वज्ञानान् अजन्यजनियोनिजः चाक्षुषे त्वन्तरे प्राप्ते प्राक्सरके कालविद्रुते यस् सर्ज प्रजायिष्ठा स दक्षो दैवचोदितः यो यां जायमानः सर्वेषां तेजस्तेजस्विनां वृचा सयोपादत्तिदाक्षाच्च कर्मणां दक्षमब्रुवन् तं प्रजा सर्गरक्षायाम् अनादिरभिषिज्यताम् योजयुजेन्याश्च यो सवै सर्व प्रजापतिन् इति श्रीमद्भागवते महापुराणे प्रपञ्चां सहितायां चतुर्सस्कन्दे त्रिंशोऽध्यायः